पञ्चषष्टितमः सर्गः अथ रात्र्याम् व्यतीतायाम् प्रातरे वा परेहनि वन्दिनः पर्यपातिष्ठम्स्तत्पार्थिवनिवेशनम् सूताः परमसंस्कारामागधाश्चोत्तमः श्रुताः गायकाः श्रुतिशीलाश्च निगदन्तः पृथक् पृथक् राजानम् स्तुवताम् तेषामुदात्ताभिहिताशिषा प्रासादाभोगविस्तीर्णस्तुति शब्दो ह्यवर्तत ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः अपदानान्युदाहृत्य पाणिवादान्यवादयन् तेन शब्देन विहगाः प्रतिबुद्धाश्च स स्वनुः शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः याहृताः पुण्यशब्दाश्च वीणानाम् चापि निःस्वनाः आशीर्गेयम् च गाथानाम् पूरयामासवेश्म तत् ततः श्रु च समाचाराः पर्युपस्थानकोविदाः स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथा पुरा हरिचन्दनसम्पृक्तमुदकङ्काञ्चनैर्घटैः आनिन्युस्नानशिक्षाज्ञा यथाविधि मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् उपानिन्यस्तथा पुण्याः कुमारे बहुला स्त्रियः सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् सर्वम् सुगुणलक्ष्मीवत्तदभूदाभिहारिकम् ततः सूर्योदयम् यावत् सर्वम् परिसमुत्सुकम् तस्थावनुपसम्प्राप्तम् किंस्विदित्युपशङ्कितम् अथयाः कोसलेन्द्रस्य शयनम् प्रत्यनन्तराः तास्त्रियस्तु समागम्य भर्तारम् प्रत्यबोधयन् अथाप्यचितवृत्तास्ता विनयेन नयेन च न ह्यस्य शयनम् स्पृष्ट्वा किञ्चिदप्युपलेभिरे तास्त्रियः स्वप्नशीलज्ञाश्चेष्टाम् सञ्चलनादिषु तावेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः प्रतिस्रोतस्तृणाग्राणाम् सदृशम् सम् चकाशिरे अथ सन्देहमानानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् यत्तदा शङ्कितम् पापम् तदा यज्ञे विनिश्चयः कौसल्या च पुत्रशोकपराजिते प्रसुप्तेन प्रबुध्येते यथा निष्प्रभासा विवर्णा च सन्ना सन्नता नव्यराजत कौसल्यातारे वतिमिरावृता कौसल्यानन्तरम् राज्ञः सुमित्रा तदनन्तरम् न स्म विभ्राजते देवी शोकाश्रुलुलितानना ते च दृष्ट्वा तदा सुप्ते उभे देव्यौचतम् नृपम् सुप्तमेवोद्गतप्राणवन्तः पुरममन्यत ततः प्रचुकृशुर्दीनाः सस्वरन्तावराङ्गनाः करेणेव इवारण्ये स्थानप्रच्युतयूथपाः तासामाक्रन्दशब्देन सहसोद्गतचेतने कौसल्या चसु मित्रा च त्यक्तनिद्रेवभूवतुः कौसल्या चसु मित्रा च दृष्ट्वा स्पृष्ट्वा च न भ्राजते तारे वगगनच्युता नृपेषाम् त गुणे जाते कौसल्याम् पतिताम् भुवि अपश्यंस्ता स्त्रियः सर्वा हताम् नागवधूमिव ततः कैकेयी प्रमुखा स्त्रियः रुदत्यः शोकसन्तप्ता येन स्फीतीरो भूयस्तद्गृहम् समनादयत। तत्परित्रस्त संभ्रांत पर्युत्सुकजनाकुलम् सर्वतस्तु मुलाक्रन्दम् परितापार्तबान्धवम् सद्यो निपतितानन्दम् दीनम् विक्लवदर्शनम् बभूवनरदेवस्य सद्वदिष्टान्तमीयुषः अतीतमाज्ञायतु पार्थिवर्षभञ्जशस्विनन्तम् परिवार्य वृषम् मृदत्यः करुणम् सुदुःखिताः प्रगृह्य व्यलपन्ननाथवत। इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चषष्टितमः